श्रीहरये नमः अतः पञ्चमोऽध्यायः श्रीशुक उवाच तस्यां सपां विष्णुमायोपब्रह्मितः हर्यस्वसंज्ञानयुतं पुत्रा न जनयद्विभुः अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप पित्रा प्रोक्ताः प्रजा सर्गे प्रतीचीं तदुपस्पर्शनादेव विनिर्धूत्मलासयाः धर्मे पारमहंस्ये च प्रोत्पन्नमदयोऽप्युता तेऽपि रेतप एवोग्रम् पित्रादेशेन यन्त्रिताः प्रजाविवृद्धये यत्तान् देवर्षिस्तान् दतर्सहः उवाच चात हर्यस्वां कथं स्रक्षत वै प्रजाः अदृष्ट्वान्तं भुभो यूयं बालिसा भतबालकाः ततैकपुरुषं राष्ट्रं बिलं च अदृष्टनिर्गमम् बहुरूपां स्त्रियं चापे पुमांसं पुंश्चलीपतिं नदीमुपयतो बाहां पञ्चपञ्चाद्भुतं गृहं क्वचिद् हंसं चित्रगतं क्षौरभव्यं स्वयं भ्रमिं कथं स्वपितुरादेशम् अविद्वांसो विपश्चितः अनुरूपं अभिज्ञाय अहो सर्गं करिष्यत श्रीसुख उवाच तन्निसंज्ञात हर्षस्व औत्पत्तिकमनीषया वाचकूटं तु देवर्षे स्वयं विमं ऋषुर्धिया भूक्षेत्रं जीवसंयज्ञं यधनातिनिजबन्धनम् अदृष्ट्वा तस्य निर्वाणं किमत्सर्कर्मभिर्भवेत् एक भगवान् स्वाश्रयः परः त्वमदृष्ट्वा भवं पुंस किमसत्कर्मभिर्भवेत् पुमान्नैवेति यत्कद्वा पिलस्वर्गं गतो यथा प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत् नानारूपात्मानो बुद्धे स्वैरिणीव गुणान्विता तन्निष्ठामगतस्येह किम सत्कर्मभिर्भवेत् तत्सङ्गभ्रंसिधैश्वर्यं संसरन्तं कुभार्यभत् तत् गति अबोतस्येह किमसत्कर्ममभिर्भवेत् सृष्टप्ययकरीमायां वेलाकुलान्तवेगिताम् मत्तस्यतामविज्ञस्य किमसत्कर्मभिर्भवेत् पञ्चविंशतितत्त्वानां पुरुषोद्भुतदर्पणम् अध्यात्मम् अबुधस्येख किमसत्कर्मभिर्भवेत् ऐश्वरं शास्त्रम् उत्सृज्य बन्तमोक्षानुदर्शनं विविक्तपदमज्ञाय किमसत्कर्मभिर्भवेत् कालचक्रं भ्रमिस्तीक्ष्णं सर्वं निष्कर्षयज्जगद् स्वतन्त्रम् अबुधस्येह किमसत्कर्मभिर्भवेद शास्त्रस्य पितुरादेशं यो न वेदनिवर्तकं कथं तदनुरूपाय गुणविश्रभ्युपक्रमेत इति व्यवसिता राजन् हर्यस्वायेकचेतसः प्रययुस्तं परिक्रम्य पन्तानम् अनिवर्तनं स्वरब्रह्मणि निर्बाध ऋषिकेशपदाम्बुजेम् अघण्ठं चित्तमावेश्य लोकान् अनुचरन् मुनिः नासं निसंयपुत्राणां नारदाश्चीलशालिनाम् अन्वतप्यतकः शोचन् सुव्रजास्त्वं सुचाम्पदं स भूयः पाञ्चजन्यायाम् अजेन परि पुत्रान् अजनयद्धक्ष सबलास्वान् सहस्रसहां तेऽपि पित्रा समाधिष्ठा प्रजसार्गे धृतव्रताः नारायणसरो जग्मार्यत्र सिद्धाः स्वपूर्वजाः जबन्तो ब्रह्मपरमं ते पुस्तेत्रमहत्तपः कति कतिचिन्मासान् कतिचित् वायुभोजनाः आराधयन्मन्त्रमिमम् अभ्यस्यन्त इडस्पतिं ॐ नमो नारायणाय पुरुषाय महात्मने विशुद्ध सत्त्वधिष्ठाय महाहंसाय धीमहि इति तानपि राजेन्द्र प्रतिसर्गति यो मुनिः उपेत्य नारतः प्राह वाचकूटानि पूर्ववत् दाक्षायणा संशृणुद गततो निगमं मम अन्विच्छतानुपदवें भ्रातॄणां भ्रातृवत्सलाः भ्रातॄणां प्रायणं भ्राता यो नितिष्ठति धर्मवेत् स पुण्यबन्धुः पुरुषो मरुद्भिः सकमोदते एता भदुक्त्वा प्रययौ नारदो मोघधर्षणः तेऽपि च परस्यानुपथं गतः नाध्यापिते निवर्तन्ते पश्चिमायामिनीरिव एतस्मिन् कालमुत्पादान् बहून् पश्यन् प्रजापतिः पूर्वभन्नारधकृतं पुत्रनासम् उपाशृणोत् शुक्रोत नारधायासो पुत्रशोकविमूर्छितः देवर्षिम् उपलभ्याः रोषात् विस्फुरिताधरः दक्ष उवाच अहो असाधो साधूनां साधुलिङ्गेन न असाध्वकार्यभागाणां भिक्षोर्मार्गप्रदर्शितः ऋणैस्त्रिभिरमुक्तानाम् अमीमांसितकर्मणां विद्यातश्रेयसः पाप लोकयोरुभयो कृतः एवं त्वं निरनुक्रोसो बालानामदिभित् हरेः पार्षधमध्ये सरसे यशोकानिरभत्रपः ननु भागवता नित्यम् बोधानुग्रहकातराः ऋते त्वां वै वैरङ्करम् अभैरिणां नित्तम् पुंसाम् विरागस्य त्वया केवलिनामृषां मन्यसे यद्युपसमम् नेखपासनिकृन्तनम् नानुभूय न जानाति पुमान् विषयतीक्ष्णतां निर्विद्येतस्वयं तस्मान्त तथा भिन्नदीपरैः यन्नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनां कृतवानसि धुर्मर्षं विप्रियं तव हर्षितं तन्तु कृन्तनयन्नस्त्वं अभद्रम् अचरः पुनः तस्माल्लोकेषु ते मूढ न भवेद्भ्रमतः पदं श्रीसुक उवाच प्रदिजग्राहतद्बाढं नारदः साधुसम्मतः एतावान् साधुबाधो हि तितिक्षेतेश्वरस्वयम् इति श्रीमद्भागवते महापुराणे षष्ठस्कन्दे नारदसापो नाम पञ्चमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथमहाराजि के जय